श्रीमद्भागवत्महापुराणम् एकादशस्कन्ध द्वितीयोऽध्यायः कविरुवाच मन्ये कुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम् उद्विग्नबुद्धेरसदात्मभावाद्विस्वात्मना ये वै भगवता प्रोक्ता उपाया चात्मलब्धये अञ्जः पुंसामविद्वसां वृद्धि भागवतान् हितान् यानास्थाय नरु राजन्न प्रमाद्येत कर्हिते धावन्यमिल्यवा नेत्रेण स्खलेन पतेदिह कायेण वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुशितस्वभावात् करोति यद्य सकलं परस्मै नारायणायेति समर्पये तत् भयं द्वितीयाभिनिवेशतः स्यादिशादपेतस्य विपर्ययो स्मृतिः तन्माय यातो बुध भक्त्यैकये सं गुरुदेवतात्माम् अविद्यमानोऽप्यवभाति हि द्वयोऽध्यातुर्धिया स्वप्नमनोरथौ यथा तत्कर्मसङ्कल्पविकल्पकं मनो बुधोऽनुरुध्यादभयं तत् स्यात् शृण्वन्सभद्राणि रसाङ्गपाडे च यानि लोके गीतानि नामानि तदर्शकानि गायन् विलज्जो विचरेदसङ्गः एवं व्रत स्वप्रियनामकृत्या जातानुरागो दृतचित्तवुच्चैः हसत्यथोरोदितिरोति गायन् रुमादवर्णेत्यतिलोकबाह्य खं वायुमग्निं सलिलं महिं च ज्योतिषिं सत्वानि दृशो द्रुमारेन सरे समुद्राश्च हरे शरीरं यत्किञ्च भूतं प्रणमेदनन्यः भक्तिपरेषानुभवो विरक्ति अन्यत्र चैषतिक एककालः प्रपद्यमानस्य यथाश्नतस्योतुष्टिपुष्टिछूदपायोऽनुघासम् इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोध भवन्ति वै भागवतस्य राजन्तत परां शान्तिमुपैति साक्षात् राजवाच अथ भागवतम्ब्रूत यद्धर्मो यादृशोऽनृणां यथा चलति यद्ब्रूते यलिङ्गे भगवत्प्रियः हरिर्वाच सर्वभूतेषु यपश्येद्भगवद्भावमात्मनः भूतानि भगवत्यात्मन्ने सभागवतोत्तमः ईश्वरे तदधीनेषु बालिषेषु दुशस्सु च प्रेममैत्रीकृपोपेक्षाय करोति स मध्यमः अर्चायामेव हर्ये पूजां य हते न तद्भक्तेषु चान्येषु स भक्त प्राकृतस्मतः गृहीत्वापिन्द्रियैरर्थान् यो न द्वेष्टिनशिष्यते विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः यो जन्मापि यक्षुन्भयतर्षकृच्छैः संसारधर्मैर्विमुह्यमान स्मृत्या हरेर्भागवतप्रधानः न कामकर्मबीजानां यस्य चेतसि सम्भवः वासुदेवैकनिलयः स वैभागवतोत्तमः न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः सज्जत्तेऽस्मिन्नहं भावो देहै वै स हरे प्रियः न यस्य स्वपरिति वित्ते स्वात्मनिवाभिधां सर्वभूतसमशान्त सर्वै भागवतोत्तमः त्रिभुवनविभवहेतवेऽप्युन्द्यकुण्ठ स्मृतिद्रजितात्मसुरादिभिर्विं मृं मृमृगात् न चलति भगवत्पदारबिन्दाल् लवनिविषार्धमपि य स वैष्णवाग्रह भगवत उरुविक्रमाघ्रशाखान्नखमणिचन्द्रिकया निरस्ततापे हृदि निरस्ततापे। पुनः स पुनस चन्द्र इवोदितेऽर्कतापः वृषजति हृदयं न यस्य साक्षा धरीरवामसाभिहितोऽप्यघोघनाश प्रणयरं दशनयाधृताङ्घ्रिपद्म स भवति भागवत प्रधानमुक्तः यते श्रीमद्भागवते महापुराणे पारमंशां शैतायाम् एकादश स्कन्धे